षट्पञ्चाशदधिकशततमोऽध्याय जनमेजयौवाच एकचक्राम् गतास्तेत् कुन्ति पुत्रा महारथा अत ऊर्ध्वम् द्विजश्रेष्ठकमकुर्वत पाण्डवाः वैशम्पायन कुन्तीपुत्रा महारथाः ऊषुर्नातिचिरम् कालम् ब्राह्मणस्य निवेशने रमणीयानि पश्यन्तो वनानि विविधानि च पार्थिवानपि चोद्देशान् सरितश्च सरांसि चेरुर्भैक्ष्यम् तदा ते तु सर्व एव विशाम्पते बभूवुर्नागराणाम् च स्वैर्गुणैः प्रियदर्शनाः दर्शनीया द्विजाः शुद्धा देवगर्भोपमा शुभा भैक्षानर्हाश्च राज्यार्हाः सुकुमारास्तपस्विनः सर्वलक्षणसम्पन्ना भैक्षन्नार्हन्ति नित्यशः कार्यार्थिनश्चरन्तीति तर्कयन्त इति ब्रुवन् बन्धूनाम् आगमान् नित्यम् उपचिन्त्यतु नागराः भाजनानि च पूर्णानि भक्ष्यभोज्यैरकारयन् मौनव्रतेन संयुक्ता भैक्षम् गृह्णन्ति पाण्डवाः माता चिरगतान् दृष्ट्वा शोचन्तीति च पाण्डवाः त्वरमाणा निवर्तन्ते मातृगौरवयन्त्रिता निवेदयन्ति स्म तदा कुन्त्या भैक्षम् सदा तया विभक्तान् भागांस्ते भुञ्जते स्म पृथक् पृथक् अर्थम् ते भुञ्जते वीराः सह मात्रा परन्तपाः अर्धम् सर्वस्य भैक्षस्य भीमो भुङ्क्ते महाबलः तथा तु तेषाम् वसताम् तस्मिन् राष्ट्रे महात्मनाम् अतिचक्रामसुमहान् कालोऽथ भरतर्षभ ततः कदाचिद्भैक्षाय गतास्ते पुरुषर्षभाः सङ्गत्या भीमसेनस्तु तत्रास्ते पृथया सह अथार्त्तिजम् महाशब्दम् ब्राह्मणस्य निवेशने भृशमुत्पतितम् घोरम् कुन्ती शुश्रावभारत रोरूयमाणाम् दृष्ट्वा परिदेवयतश्च कारुण्यात्साधुभावाच्चकुन्ती राजन्न च क्षमे मथ्यमानेन दुःखेन हृदयेन पृथा तदा उवाच भीमम् कल्याणी कृपान्वितमिदम् वच वसामसुसुखम् पुत्रब्राह्मणस्य निवेशने अज्ञाताधार्तराष्ट्रस्य सत्कृतावीतमन्यव सा चिन्तये सदा पुत्रब्राह्मणस्यास्य किन्वहम् प्रियम् कुर्यामिति गृहे यत् कुर्युरेषिताः सुखम् एतावान्पुरुषस्तातकृतम् यस्मिन्न नश्यति यावच्च कुर्यादन्योऽस्य कुर्यादभ्यधिकम् ततः तदिदम् ब्राह्मणस्यास्य दुःखमापतितम् ध्रुवम् तत्रास्य यदि साहाय्यम् कुर्यामुपकृतम् भवेत् भीमसेनोवाच ज्ञायतामस्य यद्दुःखम् यतश्चैव समुत्थितम् विदित्वा व्यवसिष्यामि यद्यपि स्यात्सु दुष्करम् वैशम्पायिनौ तौ कथयन्तौ च भूयः शुश्रुवतु स्वनम् आर्तिजम् तस्य विप्रस्य सभार्यस्य विशाम्पते अन्तःपुरम् ततस्तस्य ब्राह्मणस्य महात्मनः विवेशत्वरिताकुन्ती बद्धवत्सेवसौरभी ततस्तम् ब्राह्मणम् तत्र भार्यया च सुतेन च दुहित्रा चैव सहितम् ददर्शावनताननम् ब्राह्मण धिगिदम् जीवितम् लोके गतसारमनर्थकम् दुःखमूलम् पराधीनम् भृशमप्रियभागि च जीविते परमम् दुःखम् जीविते परमोज्वर जीविते वर्तमानस्य दुःखानामागमो ध्रुव आत्मा ह्ये को हि धर्मार्थौ कामम् चैव निषेवते एतैश्च विप्रयोगोऽपि दुःखम् परमनन्तकम् आहुः केचित्परम् मोक्षम् स च नास्ति कथञ्चन अर्थप्राप्तौ तु नरकः कृत्स्न एवोपपद्यते अर्थेऽप्सुता परम् जातस्नेहस्य चार्थेषु विप्रयोगे महत्तरम् न हि योगम् प्रपश्यामि येन मुच्येयमापदः पुत्रदारेण वा सार्धम् प्राद्रवेयमनामयम् यतितम् वै मया पूर्वम् वेत्थ ब्राह्मणि तत्तथा त्वया तु ममनश्रुतम् ह्य विवृद्धास्मि पिता चापि उक्तवत्यसि दुर्मेधे याच्यमानमया सकृत् स्वर्गतोऽपि पिता वृद्धस्तथा माता चिरम् तव बान्धवाभूतपूर्वाश्च तत्र वासेतु कारतिः सोऽयम् ते बन्धुकामाया अशृण्वत्या वचो मम बन्धुप्रणाशः सम्प्राप्तो अथवा मद्विनाशोऽयम् न हि शक्ष्यामि कञ्चन परित्यक्तुमहम् बन्धुम् स्वयम् जीवन्नुशंसवत् सह धर्मचरीम् दान्ताम् नित्यम् मातृसमाम् मम सखायम् विहिताम् देवैर्नित्यम् परमिकाम् गतिम् पित्रा मात्रा च विहिताम् सदा गार्हस्थ्यभागिनीम् वरयित्वा यथा न्यायम् मन्त्रवत् परिणीय अपत्यजननीमपि त्वामहम् जीवितस्यार्थे साध्वीमनपकारिणीम् परित्यक्तुम् न शक्ष्यामि भार्याम् नित्यमनोव्रताम् कुत एव परित्यक्तुम् सुतम् शक्ष्याम्यहम् बालमप्राप्तवयसमजातव्यञ्जनाकृतिम् भर्तुरर्थाय निक्षिप्ताम् न्यासम् धात्रा महात्मना यया दौहित्रजाल्लोकानाशंसे पितृभिः सह स्वयमुत्पाद्यताम् बालाम् कथमुत्सृष्टुमुत्सहे मन्यन्ते केचिदधिकम् स्नेहम् पुत्रे पितुर्नराः कन्यायाम केचिद मम तु्या स्मृत योका प्रसूति सुखाता कथ मुत्स्रुमुत्त्से आत्मा चोत्सृज्य तरलोक त्यक्ता हेते माया व्यक्त ने जीवी येषाम् चान्यतमत्यागो नृशंसो गर्हितो बुधैः आत्मत्यागे कृते चेमे मरिष्यन्ति मया विना सकृच्छ्रामहमापन्नो न शक्तस्तर्तुमापदम् अहोधिक्काम् गतिम् त्वद्य गमिष्यामि स बान्धवः सर्वैः सह मृतम् श्रेयो नचमे च क्षमम् इति श्रीमहाभारते आदिपर्व बकवधपर्व ब्राह्मणचिता षट्पंचाशदतमोध्याय